चरेश्चेन्नो विदितः कालमेतयुक्तो राजन्मोहयित्वा मदीयान् ब्रवीमि सत्यं कुरु संसदीह तवैव ता भारत पञ्च नद्यः वयम् चैतद्भारत सर्व एव त्वयाजिताः भोगान् वसेम इत्याह पुरा स राजा मध्ये कुरूणाम् समयोक्तस्तथेति तत्र द्यूतमभवन्नो जघन्यन्तस्मिञ्चिताः प्रव्रजिताश्च सर्वे इत्थन्तु देशाननुसञ्चरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः सुयोधनश्चापि न शान्तिमिच्छन् भूयः समन्योर्वशमन्वगच्छत् उद्योजयामास सर्वान् ये चास्य सन्धिमास्थाय सताम् सकाशे को नाम राज्यहेतोः आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीम् प्रशासेत् तदैव चेद्वीरकर्माकरिष्यो यदाद्यूते परिघम् पर्यमृक्षः बाहूदिधक्षन् वारितः फाल्गुनेन किम् प्रागेव चैवम् समयक्रियायाः किन्ना ब्रवीः पौरुषमाविदानः प्राप्तन्तु कालम् यद्याग्रसेक्लिश्यम सदृश्य त क्षास्म भीम भरतप्रवीर, भरत प्रवीर कृयुक्त कु वीर मध्ये काल प्रतीक्षस्वोदय पक्ति यदा हि पूर्वम् विकृतो निकृन्ते वैरम् स पुष्पम् विदित्वा महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके श्रियञ्च लभते समग्राम् मन्ये चास्मै शत्रवः सन्नमन्ते मित्राणि चैनमचिराद्भजन्ते देवायिवेन्द्रमुपजीवन्ति चैनम् मम प्रतिज्ञाम् च निबोधसत्याम् वृणे धर्ममृता जीविता च राज्ञम् च पुत्राश्च यशोधनम् च सर्वम् सत्यस्य कलामुपैति इति श्री महाभारते श्रीमहाभारनपर्वणे अर्जुनागमनपर्णे युधिष्ठिवाक्ये चतोध्याय